श्रीमद्भागवत् महापुराणं <laughs> एको नवनन्ति तमोऽध्यायः एवं विश्रम्भितो विप्र फाल्गुणेन परं तप जगाम श्वगृहं प्रीत निशामयन् प्रसूतिकाल आसन्ने भार्याया पाहि पाहि प्रजामृत्यो रत्याहार्जुनमातुरः स उपस्पृश्यशुच्यम्भो नमस्कृत्य महेश्वरं दिव्याण्यस्त्राणि संस्मृत्य सद्यं गाण्डीव मादते नरुणस्तुतिकागारं सनैनानासुयोजितैस्तर्यगुरुध्वपदपार्थचकार सर्पञ्जरम् ततः कुमारसञ्जातो विप्रपत्न्या रुदन्मुहुः सद्यो दर्शनमापेदे विहायशां तदाह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ मूर्ढ्यं पश्यतु मेषो योऽहं सद्धे क्लिब कथन् न प्रद्युम्नो न रामो न च यस्य शोकोपरि द्रातुं कोण्यस्तद्वितेश्वरः विषावादं धिगात्म धिगात्मश्लाघिनो धनो दैवोपशिष्टं यो मूढ्यान् आनीशति दुर्मतिः एवं सपत् विप्रशो विद्यामास्थाय फाल्गुणः ययौ संयमनियां यत्रास्ते भगवान् यमः विप्रापत्यम् अचक्षाळत तत आग्नेयं नैरृतिं सौम्यां वायव्यां वारुणीमत् रसातलं नाकप्रश्नं धृष्ण्यान्युदायुध ततो लब्धद्विजसुतो झनिस्तीर्ण प्रतिश्रुतः अग्निं विवक्षो कृष्णेन प्रत्युक्त प्रतिषेधता दर्शे द्विस्मिस्ते मा वज्यात्मानमात्मना एतेन कीर्तिं विमलां मनुष्या स्थापयिष्यन्ति इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः दिव्यं सरथमास्थाय प्रतीचिंतिसमाविशत् सप्त दीपान् सप्त सिन्धुन् सप्त सप्त गिरीनथ लोकालोकम् तथातिथ्यविवेशसु महत्तमः तत्याश्वासेभ्य सुग्रीवमेघपुष्पबलाहकाः तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वर तहस्रादित्यसङ्काशम् स्वचक्रम् प्राहिणोत्पुरः तमाशुघोरं गहनं कृतं महन्विदारि यद्भूरितरेण शोचिषा मनोजवं निर्विविशेषे निर्विशेषे सुदर्शनं गुणज्यतो रामसरो यथा च मू द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारं समश्नुवानं प्रसमीक्षभार्गुणप्रताडिताक्षोऽपि दधेक्षिणे उभे ततः प्रविष्टं चलनं नभस्वता मलीयसैजन् बृहदं दूर्मे भूषणं तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितं तस्मिन् महाभीममनन्तमद्भुतं सहस्रमूर्धन्यफणामणिद्युभि विभ्राजमानं द्विगुणोल्मळेक्षणं सिता च लाभं श्रीकण्ठजीवम् ददर्श तद्भोगसुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमं सान्द्राम्बुदाभं सुविसङ्गवाससं प्रसन्नवक्त्रं रुचिरायते क्षणं महामणिव्रातकिरीटकुण्डलप्रभा परिक्षेप्यसहस्रकुन्तलं प्रलम्बचार्वष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालयावृतम् सुनन्दनन्दप्रमुखैः सुपार्षदये चक्रादिभिर्मूर्तिधरे निजायुधै पुष्यासि आकृत्य जयाखिलिवे निसेव्यमाणं परमेष्ठिनां पतिं बबन्ध आत्मानमनन्तमच्युतो ज्यष्णस्य तद्दर्शनजातसाध्व तावाह भूमा परमेष्ठिनां प्रभो बद्धाञ्जलिं सस्मितमुर्जया विराम् जात्मजा मे युवयोर्जुदीक्षुणा मयोपनीता भुवि धर्मगुप्तये कलावतीर्णा ववनेर्भराचुरान् हत्वेह भूयद्वर्येतमन्ति तमन्तिमे पुण्यकामावपि युवां नरनारायणा वृषे धर्ममाचरतं सित्यैर्षभौ लोकसङ्ग्रहम् इत्यादिष्टौ भगवता तौ कृष्णौ परमेशिरा ॐमित्यानम्य भूवानां आदाय द्विजदारकान् न वर्ततां श्वकं धाव सम्प्रहिष्टो यथागतं विप्राय ददतु पुत्रां यथा रूपं यथा वयः निशाम्यवैष्णवं धाम पार्थ परमविस्मितः यत्किञ्चित् पौरुषं पुंसां मेदे कृष्णानुकम्पितम् जे एतेषान्यनेकानि वर्यालीह प्रदर्शयन् बुभुजे विशियान् ग्राम्यान् डीजे चात्योर्जितैर्मकै प्रवर्षाखिलान् कामान् प्रदासो ब्राह्मणादिशो यथाकालं यथैवेन्द्रो भगवात्सय च मासितः हत्वान् पान्धर्मष्ठान् घातयत्वार्जुनादिभिः अञ्जसावर्तयामास धर्मं धर्मसुतादिभिः ते श्रीमद्भागुते महापुराणे पारहिंसां शयितायां दशमस्कन्धे उत्रार्धे द्विजकुमारानयनं नाम एकोण्णवतितमोऽध्यायः